मुद्गलपुराणं खण्डंसवन् विघ्नराजचरितम् अध्यायं वन् दिदिशोकवर्णनं श्रीगणेशाय नमः शौनक उवाच पिकटस्यचरित्रं वै श्रुत्वा सूदमहामदे हर्षितोऽहं विशेषेण ब्रह्मभूयप्रकाशकम् यत्किञ्चिद् गणराजस्य चेष्टितं व्यासशिष्यक तदेव ब्रह्मसायुज्यदायकम् नात्र संशयः धन्यं भाग्यं मुनीन्द्राणाम् मदीयं येन दे द्विज दर्शनं साधुरूपस्य जादं योगप्रदस्य च योगवृष्टिमयीं गाधां च्युतां त्वन्मुखमेखतः पीत्वा नयामि तृप्तिं च सुधां पीत्वा यथा नरः अधुना कृपया ब्रूहि विघ्नराजस्य चेष्टितं ममासुरविनाशाख्यं ब्रह्मप्राप्तिकरं परम् स्थूत उवाच मुद्गलस्य मुखात् पुण्यां कथां श्रुत्वा प्रजापतिः विकटस्य पुनस्थं च जगादैव सहर्षितः दक्ष उवाच धन्यं मे जन्मकर्मादि येन ते भूत्समागमः वदसे योगदां पूर्णां कथां योगीन्द्रवन्दित आङ्गिरसकुले साक्षाद्योगरूपधरः प्रभो त्वं जातोऽसि न सन्देहकुलतारक एव च सर्वदम् श्रुतं विकटमाहात्म्यं न तृप्तोऽहं तु मुद्गल कीदृशं ब्रह्म तस्यापि किमर्थं देहधारकः किं कर्म कुत्र वासन्दिष्टते विघ्ननायकः कस्य दैत्यस्य हन्तासौ चरित्रं वद सर्वपम् विघ्नराजस्य सर्वं तु विचारेण महात्मनः मुद्गल उवाच दक्षत्वं योगिवन्द्यश्च भविष्यसि न संशयः कथां श्रुत्वा गणेशस्य प्रीतिः संवर्धते यदः समासेन प्रवक्ष्यामि विघ्नराजस्य सौख्यदं चरित्रं शृणुभावेन सर्वसिद्धिप्रदायकम् अत्रते ते कथयिष्यामि पुरातनभवं परम् इतिहासं पश्य पश्य दित्यासंवादसंयुतं महा सुरौ दिदेः पुत्रौ हिरण्यकशिपुर्महान् हिरण्याक्षो हतो पूर्वं विष्णुना मायया परौ ततो दिशोकसंयुक्ता दिधिकश्यपमाययौ सेवायां निरदतस्य नित्यं भक्तिपरायणा एवं बहौ गते काले तामुवाच वरं ब्रूहि ततस्तं सा जगादः दिदिरुवाच मम पुत्रौ अदौ तेन विष्णुना मखवार्धतः अत इन्द्रघ्नपुत्रं मे देहि तुष्टोऽसि कस्यप तस्यास्तद्वचनं श्रुत्वा शोकयुक्तो बभूवः अहो साधु चरित्रापि स्त्री विश्वास्या न केनचिद करिष्यामि धर्मपालकमुत्तमम् साधुं गुणयुतं पुत्रमिन्द्रं रक्षामि वै कथम् अदो विघ्नेश्वरं स्मृत्वा तां जगादप्रजापतिः व्रतं कुरुप्रयत्नेन वर्षमात्रं महाकले तदाते भविता पुत्रो हन्तेन्द्रस्य न छिद्रं मा कुरुभावेन व्रदे विघ्नयुधापि चेद यणेशं सध्यात्वा रेमे तया सह तस्यां वीर्यं समाधाय व्रतं ददौ सुपुत्रधं प्रणम्य स्वगृहं सा तमाययौ कर्षसंहुधा व्रतं चकारयत्नेन नियमस्ता प्रजापदे तद इन्द्रेण वृत्तान्तो ज्ञादो नारदवाक्यदः गणेशं मनसिध्यत्वा निःश्वासं स मुमोचः ततस्तस्य हृदिस्थो वै विघ्नराजो मदिं ददौ इन्द्रस्तामाययौ देवीं मातरं सेवनोत्सुकः दिदिं सिषेवे नित्यं सव्रतयुक्तां प्रणम्यः छिद्रदर्शी प्रजानाथ भक्तियुक्तप्रतापवान् नवमासा गतास्तत्र तथापि चिद्रकम्परं किञ्चिन्न ददृशे सोऽपि विह्वलो भूत् सुरेश्वरः विघ्नराजं हृदि ध्यात्वा चिन्तायुक्तः सुराधिपः तांसि शेवे युधो सदा तन्मय चे दशभिर्दिवसैर्नूनम् वर्षम् तत्र गतम् किल ततोऽतितापसंयुक्त किम् भविष्यदि विह्वलः ततो विघ्नकरो विघ्नम् चकारपरमाद्भुतम् स्वयम् सा मोहिता देवी सहर्षतः विचारमकरो चित्ते व्रदे संवत्सरोगदः किञ्चिन्न्यूना च मे वाञ्च सिद्धाजादानसंशयः हित्वा त्रिलोकगं राज्यं सुत ऐन्द्रं करिष्यति ममो दरात्समुत्पन्नकृद कृत्यास्मि साम्प्रतम् तदो निद्रया देवी पीडितमस्तकं मुदा जानुमध्ये समाकृत्य सुष्वापमोहसंयुता दिवसे निद्रया तस्या व्रतं भग्नं बभूवः जानुमध्ये शिरस्तेन द्वे छिद्रे सं इन्द्रस्तां तादृशीं दृष्ट्वा हर्षिदो भूद्गजाननं स्मृत्वा वज्रं समागृह्यो दरं विवेश्य मायया तत्र गर्भं ददर्श देवनायकः चकार तस्य वज्रेण सप्त खण्डानि वैरदः तपसोऽग्रेण दित्या स न ममार तथाप्यहो रुरोद सप्तदेहस्थो गर्भस्तेजस्विनाम्बरः दृष्ट्वा विस्मिदचित्तः सस्मृत्वा विघ्नेश्वरं पुनः एकैकं सप्तधा कृत्वा संस्थितो वज्रधारया तथापि न ममारासं गर्भः परमपावनः तावद्देहधरो भूत्वा रुरोद भयविह्वलः जगाद मखवन्दं गर्भो हंसि सुरेश्वर किमर्धं भ्रातरस्ते वै वयं सर्वेण संशयः तेषां तद्वचनं श्रुत्वा पुनरिन्द्र उवाच तान् वैरभावं परित्यज्य भविष्यथ दिवौकसः तथेदिथैकृतं तत्र बहिरिन्द्रः समाययौ तदो दिदिस् प्रजानाथ जजागारशुशोचः एतस्मिन्नन्तरे तत्र पुत्रान् सा शुषुवे परान् ये पो न पञ्चाशत् वीक्ष्य चेन्द्रमुवाच सा इन्द्र किं बहवः पुत्रा ये कसङ्कल्पितो भवद वद सत्यमहाभाग च जानासि सुरेश्वर इन्द्र उवाच मया ज्ञातं त्वदीयं यच्चेष्टितं मेत्रनाशकं मादस् तदर्थमायातः सेवार्थं तेन संशयः छिद्रं दृष्टं व्रदे मादस्तत्कृतं मया वज्रेण जठरे गत्वा गर्भं चित्वा बहिर्गदः तपो नवनमृतास्ते सुदा इमे स्वयं प्राणधरा जादा वायवश्च भवन्तु हि तान् गृह्यमखवा स्वर्गं जगामन शशापसा सत्यभाषणः संयुक्तमिन्द्रं तुष्टा बभूवः कदा दैत्यान् समालोक्य दीनान शोक शोकपरायणा पुनः कश्यपमागत्य प्रणनामपदिव्रता जगादतं सुदुकेन युक्ता प्रजापतिं विनयेन समायुक्ता स्वार्थमोहयुधा परा ॐ तत्सदि श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खण्डे विघ्नराजचरिते दिदिशोकवर्णनं नाम प्रथमोऽध्यायः ओम्